अयि गिरिनन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दनुते गिरिवरविन्द्यशिरोधिनि वासिनि विष्णुविलासिनि जिष्णुनुते भगवति हे शितिकण्ठकुटुम्बिनि भूरिकुटुम्बिनि भूरि कृते जय जय हे महिषा सुरमर्दिनि रम्यकपर्दिनि शैलसुते सुरवरवर्षिणि दुर्धरधर्षिणि दुर्मुखमर्षिणि हर्षरते। त्रिभुवनपोषिणि शङ्करतोषिणि किल्बिषमोषिणि घोषरते धनुजनिरोषिणि दितिसुतरोषिणि दुर्मदशोषिणि सिन्धुसुते जय जय हे महिषासुरमर्दिनि सम्यकपर्दिनि शैलसुते अयि जगदम्बमदम्ब कदम्बवनप्रियवासिनिहासरते शिखरिशिरोमणि तुङ्गहिमालय शृङ्गनिजालय मध्यगते मधु मधुरे मधुकैटभञ्जिनि कैटभञ्जिनि हासरते जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ऐषतखण्डवि खण्डितरुण्डवि तुण्डितशुण्डगजाधिपते रिपु गज दण्डविकारण चण्ड पराक्रमशुण्ड मृगाधिपते निज भुज दण्ड निपातितखण्ड निपातितमुण्ड भटाधिपते जय जय हे महिषासुरमर्दिनि शैलसुते यिरणदुर्मद शत्रुवधोदित दुर्धर निर्धर शक्तिभृते चतुरविचारधुरेण महाशिव दूतकृतप्रमथाधिपते दुरितदुरीह दुराशय दुर्मदानवधूतकृतान्तमते जय जय हे महिषासुर मदि गम्यकर्दि शैलसुते मई शरणागत वैरी वधूवर वीरवराभद गाय करे शूल करे। त्रिभुवनमस्तकशूलभि कृतामलशूलकरे तामरदुन्दुभिनादमहोमुखरी करे। जय जय हे महिषासुरमर्दिनि सम्यकपर्दिनि शैलसुते यि निजहुंकृतिमात्र निराकृतधूम्रविलोचन धूम्रशते समरविशोषितशोणित बीजसमुद्भव शोणित बीजलते शिव शिव शुम्भ निशुम्भमहाहवतर्पितभूतपिशाचरते शुंबा जय जय हे महिषासुरमर्दिनि सम्यक् पर्दिनि शैलसुते नुरनुसङ्गरण परिस्फुरगङ्गनटत्कटके कनकपिशङ्गपुषद्गनिशङ्गरसद्भट शृङ्गहतावटुके कृतचतुरङ्गबलक्षितिरङ्गभटद्बहुरङ्गरटद्भटुके जय जय हे महिषासुर मदि रम्यकपर्दि शैलसुते जय जय जय शब्द परुति तत्पर विश्वते ण भण भिञ्जिमि भिङ्कृतनो पुर सिञ्जित मोहितभूतपते नटितनटार्धनटी नटनायक नाटितनाट्यसुगानरते जय जय हे महिषासुरमर्दिनि सम्यक् पर्दिनि शैलसुते अयि सुमन सुमनः सुमन सुमनः सुमनोहर कान्तियुते श्रितरजनी रजनी रजनी रजनी रजनीकरवक्त्रवृते सुनयन विभ्रमर भ्रमर भ्रमर भ्रमर भ्रमराधिपते जय जय हे महिषासुरमर्दिनि रम्य कपर्दिनिशैलसुते सहितमहाहवमल्लमतल्लि कमल्लि करल्ल कमल्लरते विरचित वल्लिक पल्लिक मल्लिकिल्लिक्लि कवर्गवृपे शीतृतु सुल्ल सीताुन तल जल्लबसलि जय जय हे महिषासुर मर्नी गम्यकर्दि शैल सुते विरलगण्डगलन्मदमे दुर मतमतङ्गज राजपते त्रिभुवन भूषण भूतकलानिधि कृपपयोनिधि राजसुते अयि सुदती जनलाल समान समोहन मन्मथ राजसुते जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते कमल दलामल कोमल कान्ति कला कलितामलभालते सकलविलास कला निलय क्रमकेलि चलत् कलहंसकुले अलिकुल सङ्कुल कुवलय मण्डल मौलि मिलत् बकुलालिकुले जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैल सुते मलदलमल कोमल कान्ति कला कलितामल भे सकलविलासकला निलय क्रमकेलि चलत् कलहंसकुले अलि कुल सङ्कुल कुवलय मण्डल मौलि मिलत बकुलालि कुले जय जय हे महिषासुर मर्नी रम्यकर्दि शैल सुते कर मुरली जित को जित लज्जित कोकिल मंजुमते ित पुमनोहर कुञ्जित रञ्जित शैल निपुञ्जगते निज गुणभूतमहाशभरी गणसद्गुणसम्भृत केलितले जय जय हे महिषासुरमर्दिनि गम्यकपर्दिनि शैलसुते कटितटपीतदुकूलविचित्रमयूख तिरस्कृतचन्द्र रुचे प्रणतसुरासुरमौलि मणिस्फुरदं जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते विजितसहस्र करैक सहस्र करैक सहस्र नुते कृतसुरतारक सङ्गरतारक सङ्गरतारक सूनुसुते सुरत समाधि समान समाधि समाधि समाधि, समाधि सुजातरते जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते पदकमलं करुणानिलये परिवस्यति योऽनुदिनं स शिवे अयि कमले कमलानिलये कमलानिलयः स कथं न भवे तव पदमेव परं पदमित्यनुशीलयतो मम किं न जय जय हे महिषासुरमर्दिनि सम्यकपर्दिनि शैलसुते कनकलसत्कलसिन्धुजलैरनु सिञ्चनुते गुणरङ्गभुवम् भजति स किं न शचीपुचकुम्भतटी परिरम्भसुखानुभवम् तव चरणं शरणं करवाणि नतामरवाणि निवासि शिवम् जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते व विमलेन्दुकुलं वदनेन्दुमलं सकलं ननुकूलयते किमु पुरुहूतपुरीन्दुमुखी सुमुखीभिरसौ विमुखी क्रियते मम तु मतं शिवनामधने भवति कृपया किमुत क्रियते जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते अयि मयि दीनदया लुतया कृपयैव त्वया भवितौ यि जगतो जननी कृपयासि यथासि तथानुमितासि रते यदुचितमत्र भवत्युररीकुरुता दुरुतापमपकुरुते जय जय हे महिषासुरमर्भिणि रम्यकपर्विणि शैलसुते जय जय हे महिषासुरमर्दिनि गम्यकपर्दिनि शैलसुते